अष्टादशोऽध्यायः अर्जुन उवाच सन्न्यासस्य महाबाहो तत्त्वमिच्छा विवेदितुम् त्यागस्य च ऋषीकेश पृथक् केशिनिषूद सर्वकर्मफलत्यागम् प्रागुः त्यागम् विचक्षणा नत्याज्यम् कार्यमेव तत् यज्ञो उत्तमम् नियतस्य तु सन्ध्यासदा कर्मणो नोपपत् पर तामसग परिकीर्तिग जले मानुषज्यते त्यागी सत्त्वसमाविष्टो मेधा शतगा यस्तु कर्मफलत्या सत्यागी अभिजीयते अनिष्टम् इष्टम् शवधफल भविना सन्यासीना क्वचि La, la, la ruma mm -hmm. करणम् कर्म कर्तेति त्रिविधग कर्म Al-Fatihah <laughs> dal pam cha tatam sam udagatam niyatam sangaditam ग्द्वेशत अफल प्रेत्सुना यत्क उच्यते ्युत्सागसवन्वितग सिद्धसिद्ध्यो शटो ठो को हलस का विषादी दीर्घसूती तामस उच्यति ृर्भेदम् धृतेश्चैव गुणतस्त्रिविधम् शृणु प्रोच्यमानम् अशेषेण पृथक्त्वेन धनम् जया प्रवृत्तिम् च निवृत्तिम् च कार्यकार्ये भयाभये बन्धम् मोक्षम् च यावेत्ति बुद्धि सा पार्थसात्विकी यया धर्मम अधर्मम् च कार्यम् च अकार्यमेव च अयथावत् प्रजानाति बुद्धिः सा पार्थराजसी अधर्मम् धर्ममिति या मन्यते तमसावृता सर्वार्थान् विपरीतांश्च बुद्धिः सा यया धारयते मनः प्राणेन्द्रियक्रिया योगेनाव्यचारिण धृतिस्स पार्थ सात्विकी ययात् धर्मकामार्थान् धृत्या धारयतेऽर्जुना प्रसङ्गेन फलाकाङ्क्षी धृतिसा पार्थ राजसि भयं शोकम् विषादम् मदमेव च न विमुञ्चति दुर्मेधा धृतिसा पार्थतामसि म् द्विदानीम् त्रिविधम् शृणु मे अभ्यासात् रमते यत्र दुःखान्तम् च निगच्छति परिणामे अमृतोपवम् तत्सुखम् सात्विकम् प्रोक्तम् आत्मबुद्धिप्रसादयम् षयेन्द्रियसंयोगात् यत्तदग्रे अमृतोपमम् परिणामे विषमिव तत्सुखम् राजसंस्मृतम् भोगनम् आत्मनः निद्रालस्य प्रमादोत्थम् तत्तामसमुदागतम् तदस्ति पृथिव्याम् वा दिविजेमेषु वा पुनः स त्वम् प्रकृतियैक्तम् यदेभिः स्यात् त्रिभिर्गुणैः ब्राह्मणक्षत्रियदिशा शूद्राणान्त्य परन्तप कर्माणि प्रविभक्तानि स्वभावप्रभवै शमोदमघ तपः शौच्यम् शान्तिराजवमेव च ज्ञानम् विज्ञानमास्तिक्यम् ब्रह्मकम् वस्वभावचम् शौर्यम् तेजो दाक्ष्यं युद्धे चाप्यपलायनम् दानम् ईश्वरभावश्च क्षात्रम् कर्म स्वभावचम् शवाणिज्यम् वैश्यकर्म स्वभावजम् परिचर्यात्मकम् कर्म शूद्रस्यापि स्वभावजम् अभिरतः संसिद्धिम् लभते नरः स्वकर्म निरतः सिद्धिम् यथा य प्रवृत्ति भूतादत स्वर्मणा तमभ्यच्य सिद्धि विन्दति मानवः स्वधर्मो विगुणग परधर्मात् स्वनुष्ठिता स्वभाव नियतम् कर्म कुर्वन्नाप्नोति किल्बीषम् sarva वैष्कर्म्यसिद्धिम् परमा सन्न्यासेनाधिगच्छति सिद्धिम् प्राप्तो यथा ब्रह्म तथा निबोधमे सौंते निष्ठा यापरा बुद्ध्या विशुद्धया युक्तो धृत्यात्मानम् नियम्यच च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ युदस्य विविक्तसेवी लघ्वाशी यतव ध्यानयोगपरो नित्यम् वैराग्यम् समुपाश्रितः अहङ्कारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ब्रह्मभूत प्रसन्नात्मा नशोचति शोचति न काङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिम् लभते परा विशते तदतम् तदम् सर्वकर्माण्यपि सदा श्रयः मत्प्रसादाप्नोति शाश्वतम् पदमौव्ययम् चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगम् उपाश्रित्य मच्चित्तः सततम् भवा मच्चित्त मत सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि अथ चेत् त्वम् अहङ्कारात् न नित्यैष प्रकृतिस्त्वाम् नियोक्ष्यति स्वभावजेन बद्ध स्व क्मण कर्म ने कहाष्यवशोपि तत् Arjuna tis इति ते ज्ञानम् आख्यातम् गुह्यात् गुह्यतरम् मया विमृश्यैतत् अशेषेण यथेच्छसि तथा सर्वगुच्यतमम् भूयव शृणु परमं परमम् इष्टोसिमे इष्टोऽसि दृढमिति ततो वक्ष्यामि ते हितम् मध्याजी माम मामे मद्याजी ममस्कुर मेष्यसी सत्यति प्रि मे सर्वधर्मान् परित्यज्य मामेकम् शरणम् व्रज अहम् त्वा सर्वपापेभ्यो मोक्षयिष्यामि माशुचः म् ते नातपस्ताय नाभक्ताय कदाचन न ना चाशुश्रूषवे वात्यम् न यैवम् परमम् बुह्यम् मद्भक्तेषु अभिधास्यति भक्तिम् मयि पराम् कृत्वा मामेवैष्यति असंशयः स्मात् अन्यः प्रियतरो भुवि अध्येष्यते च यमम् धर्म्यम् संवादम् आवयोः ज्ञानयज्ञेन तेनागम् इष्टः स्यामीति मे मतिः श्रद्धावान् अनसूयश्च शृणुया लोकान् प्राप्नुयात् पुण्यकर्मणा कच्चिदेतत् श्रुतम् पा यैकाध्रेण चेतस कच्चिदज्ञानसमोग प्रनश्च ते धनञ्जय अर्जुन उवाच नष्टोऽमोघग स्मृतिर्लब्धा त्वत्प्रसादात्मयाच्युता स्थितोऽस्मि गतसन्देहग करिष्ये वचनम् तवा इत्यघम् वासुदेवस्य पार्थस्य च महात्मनः संवादम् इमं अश्रौ अद्भुतम् केशवार्जुनयोः पुण्यम् हृष्यावि च मुहुर्मुहुः तत्र पार्थो धनुर्धरः यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरव तत्र श्रीः विजयोभूतिः ध्रुवानीतिः मतिर्ममा तत्र श्रीः विजयो भूतिः ध्रुवानीतिर्मतिर्मम आ भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नाम अष्टादशोऽध्यायः श्रीकृष्णार्पणमस्तु